नारायणीयं दशकं फोर्टि मीटर मीटर् उपजाति व्रजेश्वरशौरिवचो निशम्य समा व्रजन्नध्वनिभिदचेताः निष्पिष्टनिःशेषतरुं निरीक्ष्य कञ्चित् पदार्थं शरणं गतस्त्वाम् निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपाभयविस्मयान्धाः त्वत्पादिदं खोरपिशाच देहं देहोर्विदूरेधकुठारकृतं त्वत्पीदपूदस्तन तच्छरीरात् समुच्चलन्नुच्चतरो हि चङ्गामदा गरव किमेष किं चान्दनो गौल्गुलवो धवेदि मदङ्गसङ्गस्य बलं न दूरे क्षणेन तावद्भवदामपि स्याध इत्युल्लपन् वल्लवतल्लजेभ्यस्त्वं पूदना मादनुधा सुगन्धिम् चित्रं पिशाच्यान हदकुमारश्चित्रं पुरैवा कधिशौरिणेदम् इति प्रशंसन् किल गोपलोको भवन्मुखालोक रसेण्यमाङ्क्षीद दिने दिनेदप्रदि वृद्धलक्ष्मीरक्षीणमाङ्गल्यशदोग्रजोऽयं भवन्निवासादयि वासुदेव प्रमोद सान्द्र परितो विरेजे गृहेषु ते कोमलरूपः समिधकथा सङ्कुलिधा कमन्यः पृत्तेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यहमत्यनन्दन् अहो कुमारो मयि दत्तदृष्टिस्मिदं कृतं मां प्रतिवत्सकेन ये ह्येहि मामित्युपसार्यपाणिं त्वयिष्य किङ्किन्न वधूभिः भवद्वपुस्पर्शनकौदुकेन करात्करं गोपवधूजनेन नीतस्त्वमादाम्रसरोजमाला व्यालम्बिलोलम्बतुलामलासीः निपायन्दी स्तनमङ्गगं त्वां विलोकयन्दी वदनं हसन्दी दशां यशोदा कदमान्न भेजे सदा दृश्यः पाहि हरे गदान्माम् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द